श्रीरुद्रप्रश्नः लघुन्यासः ॐ नमो भगवते रुद्राय ॐ अथात्मानगं शिवात्मानगौरिश्रीरुद्ररूपं ध्याये शुद्धस्फटिकसङ्कासं तिनेत्रं पञ्चवक्त्रकं गङ्गाधरं दशभुजं सर्वाभरणभूषितम् नीलग्रीवं शशाङ्काङ्गं नाभियज्ञोपवीतिनं व्याघ्रचरमोत्तरीयं च वरेण्यम् अभयप्रदम् कमण्ड्वलक्षसूत्राणां धारिणं शूलपाणिनम् ज्वलन्तं पिङ्गलजटा शिखामुद्योतधारिणीं मृषस्कन्धशमारूढम् उमादेहार्दधारिणम् अमृतो नाप्लुप्तं शान्तं दिव्यभोगसमन्वितम् दिग्देवतासमायुक्तं सुरासुर्नमस्कृतं नित्यं च शाश्वतं शुद्धं ध्रुवमक्षरमव्ययम् सर्वव्यापिनमीशानं रुद्रं वै विश्वरूपिणम् एवं ध्यात्वा युदस् सम्यक् ततो यजनमारभेन् अथातो रुद्रस्नानार्चनाभिषेकविधं व्याख्यास्यामः आदित एव तीर्थे स्नात्मा प्रयतो ब्रह्मचारी शुक्लवासा देवाभिमुख आत्मनि देवता स्थापयेन् प्रजनने ब्रह्मा तिष्ठतु पादयोर्विष्णुतिष्ठतु हस्तयोर्हरिस्तिष्ठतु बाह्योरिन्द्रस्तिष्ठतु जठरेऽग्निस्तिष्ठतु हृदि शिवस्तिष्ठतु कण्ठे वसवस्तिष्ठन्तु वक्त्रे सरस्वतिष्ठतु नासिकयोर्वायुस्तिष्ठतु नर्नयोश्चन्द्रादित्यौतिष्ठेतां कर्णयोरश्विनौ तिष्ठेतां ललाटे रुद्रात्तिष्ठन्तु मृधादित्यास्तिष्ठन्तु शिरसि महादेवस्तिष्ठतु शिखायां वामदेवस्तिष्ठतु तिष्ठे पिनाकी तिष्ठतु पुरतशूली तिष्ठतु पार्श्वयो शिवां शङ्करौ तिष्ठेतां सर्वतो वायुतिष्ठतु ततो बहिः सर्वतोऽग्निर्ज्वालामालापरिवृतं तिष्ठतु सर्वेष्वङ्गेषु सर्वा देवतास्थानं यथास्थानं तिष्ठन्तु मागं रक्षन्तु अग्निर्मे वाचिश्रितः वाग्जृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि वायुर्मे ए प्राणो हृदये हृदयं मयि अहमृते एव अमृतं ब्रह्मणी सूर्यो मे चक्षुषिश्रितः चक्षुर्हृदये हृदयं मयि अहमृते ए अमृतं ब्रह्मणी चन्द्रमा मे मनसि स्त्रिताः मनोहृदये हृदयं मयि अहमृते ए अमृतं ब्रह्मणि दिशो मे श्रोत्रे एताः श्रोत्रकं हृदये हृदयं मयि अहमृते ए अमृतं ब्रह्मणी आपो मे रेतसि श्रिताः रेतोहृदये हृदयं मयि अहमृते ए अमृतं ब्रह्मणी पृथिवी मे शरीरे श्रिताः शरीरकं हृदये हृदयं मयि अहमृते ए अमृतं ब्रह्मणि ओषधीवनस्पतयो मे लोम सुश्रिताः लो लोमानि हृदये हृदयं मयि अहमृते ए अमृतं ब्रह्मणि इन्द्रो मे बले ए स्थितः बलकं हृदये हृदयं मयि अहमृते ए अमृतं ब्रह्मणी पर्जन्यो मे मृधे स्थिताः मरुधा हृदये हृदयं मयि अहमृते अमृतं ब्रह्मणि ईशानो मे मन्युहृदये हृदयं मयि अहमृते ए अमृतं ब्रह्मणि आत्मा मम आत्मनि स्थिताः आत्मा हृदये हृदयं मयि अहमृते ए अमृतं ब्रह्मणि पुनर्म आत्मा पुनराजुरागान् पुनः प्राणः पुनराकुतमागात् वैश्वानरोरश्निभिर्वा वृधानः अस्तच्छेष्ठत्वमृतस्य गोपाः तस्य सेरुद्राध्यायप्रश्नमहामन्त्रस्य अघोरऋषिः अनुष्टुप्छन्दः शङ्कर्षणमृतिस्वरूपो ये जोषावादित्य परमपुरुष स एष रुद्रो देवता नमाशिवाजेति बीजं स्युतरायेति शक्तिः महादेवायेति कीलकं स्थे साम्बसदा शिवप्रसादसिद्ध्यर्थे जपे विनियोगः ॐ अग्निहोत्रात्मने अङ्गुष्टाब्ध्यां नमः दर्शपूर्णमासात्मने तर्जनीभ्यां नमः चतुर्मास्यात्मने मध्यमाभ्यां नमः निरूढपशुबन्धात्मने अनामिकाभ्यां नमः ज्योतिष्टोमात्मने कनिष्ठिकाभ्यां नमः सर्वक्रत्वात्मने करतलकरपृष्ठाभ्यां नमः अग्निहोत्रात्मने हृदयाय नमः दर्शपूर्णमासात्मने श्रिरसे स्वाहा चतुर्मास्यात्मने शिखायैवषट निरूढपशुबन्धात्मने कौचाय हुं ज्योतिष्टोमात्मने नेत्रत्रयाय वौषट सर्वप्रत्वात्मनेऽस्त्राय बभुवश्वरोमिति दिग्बन्धः दानम् आपातार्नभः स्थनन्त भुवनब्रह्माण्डमाविस्फुर ज्योतिस्पाटिकलिङ्गमौळीं कुलसत्पूर्णेन्दुमान्ताम्रतये अस्तोकाप्लुतम्बेकमीश मनिसमुद्रान् वाकां चपन् ध्याये दीप्सितसिद्धये ध्रुवपदं विप्रो विसिञ्चे शिवम् ब्रह्माण्डव्याप्तदेहाम्भित हि मरुचाभासमाना भुजङ्गैः कण्ठे कालाकपरदा का कलितशिकलाश्चण्डकोदण्डहस्ताः चक्षा रुद्राक्षमालाः प्रकटितविभवा साम्भवा रुद्रासी रुद्रसुक्तप्रकटितविभवान्न प्रयच्छन्तु सौख्यम् ॐ गणाना आं त्वा गणपतिगं भवामहे कविं कवीनामुपमश्रवस्तमं कभी शेषराजं ब्रह्मणां ब्रह्मणस्पत आन संवन्नोतिभिश्चेदसादनं महागणपतये नमः शान्तिपाठः स च मे मयश्च प्रियं च मेनुकामश्च मे कामश्च मे सोमनसस्त भद्रं च मे तेजश्च मे वस्य मे यशस्त द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिस्त च मे महत्य मे संवित्य मे ज्ञात्रं च शीरम सुत्य मे प्रसित्य मे क्षीरं च मे लयश्चमरितं च मे अृतं च मे जक्ष्मं च मे नामयच्च मे जीवातश्च मे दीर्घायुत्वं च मे च मे इम्भयं च मे शयनं च मे तुसा च मे सुजनं च मे ॐ शान्तिः श्रीरुद्रप्रश्नः ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमण्डम नम उतोत इषवे नमः नमस्ते अस्तु भगवं धन्वने बाहुभ्या मुदते नमः यात इषु शिवतमाशिवं बभूवते धनुः शिवासरव्याया तव तया नो रुद्रमिडय याते ते रुद्रशिवातनूरघोरापापकाशिनी दया नस्तन्वा सन्तमया गिरिसन्ता विचाकसी यामिशं गिरिसन्तहस्ते विभर्ष्यस्तवे शिवां गिरिद्रतां कुरु माहि हंसि पुरुषं जगत् शिवेन यथा न सर्वमिजगं सुमना अशत् अद्य भूतद विवक्ता प्रथमो देव्योऽभिषक अहि गन्श सर्वा आं जम्भयन् सर्वा आ च यातु धान्यः असौ यस्ताम्रो अरुण उत बभ्रू ये चे मागं रुद्रा अभितो दीक्षो श्रिता शस्यसो वै सागं हेडइमहे असौ यो वसर्पतीलग्रीवो विलोहितः उतैनं गोपा अधिसन्नुदसन्नुदहार्यः उतैनं विश्वा भूतानि स दृष्टो म्रियातिनः नमो अस्तु नीलग्रीवायसहस्राक्षायमीलिषे ए अथो ये अस्य सत्मानोऽहं तेभ्यो करन्नमः प्रमुञ्चधन्वन उभयोरार्तिर्जोर्जां यास्य ते हन्तै शवपराता भववो वप अवतत्य धनुसुखं सहस्राब् से सुधे निशल्यशल्याणाम्बुखाशुवो नः सुमना भव विद्यं धनुकपर्दिनो विशल्यो बालभागम् उत अने सन्न्यस्ये श आभुरश्च निसङ्गते या ते हेतुर्मिभृस्तमहस्ते बभूव ते धनु तयास्मान् विस्मृतत्वमक्षया परिभुज नमस्ते अस्त्वायुधा जानातताय वैष्णवे ए उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वरे परिते धन्वनो हेतिरस्मान्मृणक्तु विश्वतः तथो य इषुधिस्तवारे अस्मिन्निधेहि तव सम्भवे नमः नमस्ते अस्तु भगवन्विश्वेश्वराय महादेवाय त्रम्बकाय त्रिपुरान्तकाय तिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय तर्विसराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यवाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्य वशूनां पतये नमो नमः सस्मिञ्जराय त्रिश्रीमते पथिनां पतये नमो नमो बब्लुषाय विव्याधिनेन्नानां पतये नमो नभो हरिकेशाय पवीतने पुष्टानां पतये नमो नमो भवस्य हेते जगतां पतये नमो नभो रुद्रायातामिनेक्षेत्राणां पतये नमो नमः सूतायां हन्तायवनानां पतये नमो नमो रोहिताय सपतये वृक्षाणां पतये नमो नमो मन्त्रिणे चामाणिजाय कक्षाणां पतये नमो नमो भुवन्तये वारिवस्कृताय सतीनां पतये नमो नमो उच्चैर्घोषाय क्रन्दयते पत्तीनां पतये नमो नमः कृष्णाभीताय धावते सत्त्वनां पतये नमः नम स मालायिनि व्याधिन पतये नमो नमः ककुभाय निषङ्गिले ए पतये नमो नमो निषङ्गिले श्रुतिमतेत त्वराणां पतये नमो नमो वञ्चते परिवञ्चते स्थायूनां पतये नमो नमो निचे परिचराय अरण्यानां पतयेन मौलमौसि काव्येभ्यो दिगागंसद्भ्यो मृष्णतां पतयेन मौलमौसि मद्भ्यो नप्तंचरद्भ्य प्रकृन्तानां पतयेन मौलमौष्णीशले गिरिचराय कुलञ्चानां पतयेन मौलमयसुमद्भ्यो धन्वाविभ्यश्च मौलमौलमातन्नालेभ्य प्रतिदधानेभ्यश्च मौलमौलमायच्छद्भ्यो विशिषद्भ्यश्च मूलमूलमोऽषद्भ्यो विद्यद्भ्यश्च मूलमूलमाशीनेभ्य चयारेभ्यश्च मूलमूलमः स पद्भ्यो जाब्रद्भ्यश्च मोलमूलमस्तेष्ठद्भ्यो धावद्भ्यश्च मोलमूलमः सभाभ्य सभापतिभ्यश्च मूलमूलमौ अश्वेभ्योश्वपतिभ्यश्च मूलमः नम अव्याधिने एभ्यो विभजन्तेभ्यश्च भूलमूलम उगणाभ्य श्रीबह्मतेभ्यश्च भूलमूलमो गृस्थेभ्यो गृष्पतिभ्यश्च भूलमूलमो व्रातेभ्यो व्रातपतिभ्यश्च भूलमूलमो गणेभ्यो गणपतिभ्यश्च भूलमूलमो विरूपेभ्यो विश्वरूपेभ्यश्च भूलमूलमो मृद्भ्यो शुल्लकेभ्यश्च भो न भो न भो रथेभ्यो नमों रथे रथपतेभ्यश्च भो नमो नमः सेनाभ्य सेनानिभ्यश्च भो नमूलमः क्षतृभ्य सङ्गृहीतेभ्यश्च भो न मू नमश्चेभ्यश्च भो नमूलमः कुलालेभ्य कर्मारे एभ्यश्च भो नमू नमः पुञ्जिष्टे एभ्यो निषादेभ्यश्च वो नमूलमः विसुकृद्भ्यो मृगयुभ्यः श्वनिभ्यश्च वो, वो नमो नमः स्वभ्यश्च पतिभ्यश्च वो नमो चा, चा, चा, चा, नमो भवाय च रुद्राय च नमः सर्वाय च पशुपतये च नमो लीलग्रीवाय च स्थितिकण्ठाय च नमः कपर्दिने च गृप्तकेशाय च नमः सहस्राक्षाय च च नमो गिरिशयाय च क्षिपभीष्टाय च नमो मेरुत्तमाय केशुमते च नमो ओर्ह्रस्वाय च वामनाय च नमो बृहते च नमो वृद्धाय च नमो अग्न्याय च प्रथमाय च नम आसवे चाजिराय च चा, नम शग्रियाय च सिव्याय च नम नमो ओज्येष्ठाय च कनिष्ठाय च नमः पर्वजाय च परजाय च नमो मध्यमाय चापगल्भाय च नमो जगन्याय च बुध्न्याय च नमः शोभ्याय च वैश्वर्याय च नमो याम्याय च सैम्याय च नमो उर्वर्याय च कल्याय च नमः श्लोक्याय चावधान्याय च चा, नमो वन्याय च कक्षाय च नमः श्रवाय च वृषवाय च नमः आशुषेणाय च सुरथाय च नमः चूराय च विन्दते च नमो वर्मिळे च वरुथथिरे च नमो विल्मिले च कवचने च नमः स्थिताय च सुसेनाय च नमो दन्दव्याय च च नमो दिष्टवे च प्रविशाय च नमो दूताय च प्रहिताय च नमो विषङ्गणे च श्रुमते च नमः तीक्ष्णे सवे चायुधने च नमः स्वायुधाय च सुदन्दने च नमः च पथ्याय च नमः च निप्याय च नमः च सरस्याय च नमो च वेशन्ताय च नमः गुप्याय चावट्याय च नमो वर्ष्याय च वर्ष्याय च नमो मेद्याय च विद्युत्याय च नम इन्द्रियाय च तल्प्याय च नमो वात्याय च लेष्म्याय च नमो वास्तव्याय च वाचपाय च नमः शोभाय च रुद्राय च नमस्ताम्राय च अारुणाय च नमः शङ्गाय च नम च नमः उग्राय च धीमाय च नमोऽग्रेवय च दूरे च नमो हंसे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमस्तिरस्याय च कुल्याय च नमः पार्याय चावार्याय च नमः पदणाय चोत्तरणाय च नम आचार्याय चारद्याय च नमः य च नमः त्रिकत्याय च प्रवाह्याय च नमः ऐ्याय च प्रबद्ध्याय च नम किगं शिलाय च नमो गोच्याय च गृह्याय च नमः काट्याय च नमो ओहृद्याय च नवेश्याय च नमः पाकं श्रव्याय च रजस्याय च नमः शुस्याय च हरित्याय च नमो लोप्याय चौलप्याय च नम उव्याय च सम्याय च नमः पर्णाय च पर्णसदाय च नमो पर्गुमाणाय चाविघ्नते च नमः च पकृदते च नमो सेवानाकं हृदियेभ्यो नमो विक्षुणत्केभ्यो नमो विच्छिन्यत्केभ्यो नम आनीरहतेभ्यो नमीवत्केभ्य द्रापे अन्धत्पते दरिद्रनीललोहित एषां पुरुषाणाम् एषां पशूनां मा निर्मां ध्रूमो येषां कञ्चना मम याते ते रुद्रशिवा तनु शिवा विश्वहां विश्ववेषजी शिवा रुद्रस्य वेशजी दया नो मृगजीवसे एमागं रुद्राय तवसे कवर्दिरे ए चैद्वीराय प्रभुरामहे मतिं यता न चतुष्पदे विश्वं पुष्टं ग्रामे अस्मिन्ननातुरं मृडानो रुद्रो तनो मयस्कृति चैद्वीराय नमसा गच्छं च योश्च मनुराये पिता तदस्यावतौ रुद्र प्रलीयतौ बालो महान्तमुतमानोऽभकं मान ओक्षन्तमुतमान ओक्षितं बालो बलीपितरम्बोतमातुरं प्रियामातं नस्तनो रुद्ररीलिष मानस्तोकेतनये मान आशु आयुषिमानो गोषुमानो अश्वे सुरीलिषा वीरान्मारुद्रभामितो बधिर्हविष्मन्तौ तमसाभिधेमते आराध्ये गोघ्न उत पुरसघ्ने छेद्वीराय सुम्नमस्मे ते अस्तु रक्षाचनोऽधि च देव बृहधा च न शर्म यच्छद्विवर्हाः सोहे सतं गर्तशनं युवानं विराजरित्रे रुद्रस्तन्वालो अन्यन्ते अस्मिन्निपन्तु तु सेना आह परिणो रुद्रस्य हेतुर्विनक्तो परि त्वे सस्य दुर्मतिरकाय अवस्थिरामवभ्यन्तनुष्व मेढ्वस्तुकाय तनयाय मृडय मेढ्वस्तमशिवतमशिबोलसुमना भव परमे वृक्ष आयुधन् वसान आचरन्पिनाकं विभृदाबहि विकीर्तितं विलोहित नमस्ते अस्तु भगवः जास्ते सहस्रकं हेतयोऽन्यस्मन्निवपुन्तु ताः सहस्राणि सहस्रदा वाशुगौस्तव हेतय तासामीशानो भगव पराचीनामुखाकृती सहस्राणि सहस्रसूये रुद्रा अधिगुम्या आम् ते सागं सहस्रयोजने वधन्मादि तन्मसि अस्मिन् महत्यर्णवेऽन्तरिक्षे भवा अधि नीलग्रीवासीति कण्ठा तर्वा अध समाचराः नीलग्रीवासीति कण्ठादिवगं रुद्रा उपस्थिता ये वृक्षेषु तस्मिन् जरा नीलग्रीवा विलोहिता ये भूतानाम् अधिपतयो विकासकपरदिनः ये अन्येषु विभिद्यन्ते पात्रेषु पिबितो जनान् ये पथां पतिरक्ष एलाभिधायिं यव्युधः ते तीर्थानि प्रचलन्ति सुतावन्तो निषङ्गिणः य एतावन्तस्य भूयागंशस्य दिशो रुद्राभितस्थिरे ते साकं नमो रुद्रेभ्यो जय पृथिव्यां जय ऐन्तरिक्षे जय दिवे सामन्नं वाते वरसंविशुं वस्तेभ्यो दस्त्राचिरिदस दक्षिणा दश दस प्रतिचिरदसोधिचिरसूर्ध्वा तेभ्यो नमस्ते नो वृणयन्तु तेयं विस्मो जश्च नो देष्टितं वो जम्भे दधामी त्यम्बकं यजामहे सुगन्धिं पुष्ट्यवर्धनं पर्वारिकुमिव बन्धनात् मृत्योर्मक्षेयमामृता आत् यो रुद्रो अग्नौ यो अप्सूया ओषधीशो रुद्रो विश्वा भुवनाविवेश तस्मै रुद्राय नमोऽस्तु तमुष्टेयशिशूषुधन्वा यो विश्वस्य चयतिभेषो मनसाय रुद्रं नमो ओभिर्देव मसुरं दुवस्य अयं मे हस्तो भगवानयं मे अयं मे ए एष जोयवं शिवाभिर्मर्शनः देते सहस्रमयुतं पासा मृत्यो वरुचाय हन्तवे तान् यज्ञस्य माय सर्वनवं सर्वा न वदामहे नृत्यवे स्वाहा नृत्यवे स्वाहा आ नमो भगवते रुद्राय विष्णुर्वीं विष्णवे मृत्युर्मे पाय प्राणानां व्यंधिरसि रुद्रो मा विशान्तकः तेनान्नेना आप्यायस्व सदा शिवो ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ तत्सत् श्रीरामकृष्णार्पणमस्तु